हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे षष्ठ सर्ग कर्तव्यनिर्णयाय मन्त्रिणा प्रति समुचित सम्मतिदानार्थं रावणस्य अनुरोध शङ्कायां तु कुतं कर्म घोरं दृष्ट्वा भयावहं वहं राक्षसेन्द्रो चक्रेणेव महात्मना अब्रवीत् राक्षसान् सर्वान् धिया किञ्चिदवाङ्मुख दर्षिता च प्रविष्टा च लङ्कादुष्प्रसः तुरी जानकी प्रासादो दाश्चैत्य प्रवरा राक्षसाः आविला च पुरी लङ्का नो मता कृता किम् करिष्यामि भद्रम् वः किम् वो युक्तमनन्तरम् उच्यताम् न समर्थम् यत् कृतम् च सुकृतम् भवेत् मन्त्रमूलम् च विजयम् प्रवदन्ति मनस्विनः तस्माद्ै रोचये मन्त्रम् रामम् प्रति महाबलः त्रिविधा पुरुषालोके लोके उत्तमाधम मध्यमा तेषां तु समवेतानाम् गुणदोषो वदाम्यहम् मन्त्रस्त्रीभिः संयुक्त समर्थये मन्त्रनिर्णये मित्रैर्वापि समानार्थये बान्धवै अपि वाधिकैः सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् दैवे च कृते यत्नम् तम् आहु पुरुषोत्तमम् एकोऽर्थम् विमृशेदेको धर्मे प्रकुरुते मनः एकः कार्याणि कुरुते तम् मध्यमं नरं गुणदोषो न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम् करिष्यामीति यत् उपेक्षेत् स यथे मे पुरुषा नित्यम् उत्तमाधम मध्यमा एवम् मन्त्रोऽपि विज्ञेय उत्तमा धम मध्यमः एकम् अत्यमपागम्य शास्त्रदृष्टे न चक्षुषा मन्त्रिणो यत्र निरता तम् आहुर्मन्त्रमुत्तमम् बह्व्यरपि मतिर्गत्वा मन्त्रिणामर्थनिर्णयः पुनर्यत्र एकताम् प्राप्त स मन्त्रो मध्यमस्मृतः अन्योन्यम् यत्र सम्प्रति भाष्यते न चैकमत्ये शरीरोऽस्ति मन्त्र शोधम उच्यते तस्मात्सु मन्त्रितम् साधु भवन्तो मतिसत्तमः कार्यम् सम्प्रतिपद्यन्तम् एतत्कृत्यम् मनमतम् मम वानराणाम् हि धीराणाम् सहस्रै परिवारितः भेति पुरीम् लङ्काम् अस्माकमुपरोधकः परिष्यति च सुव्यक्तम् राघव सागरं सुखं सरसायुक्तरूपेण स्वानुज स बलानुगः समुद्रम् उच्छोषयति वीर्य वीर्येण न्यत् करोति वा तस्मिन्नेवं विधे कार्ये विरुद्धे वा नरे सः हितम्पुरे च सैन्ये च सर्वं सम्मन्त्रताम् वमाम् इत्याश्री श्रीमद् रामायणे वाल्मीकीयाधिकार्य युद्धकाण्डे